मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं तर्टिफैव् मखमासमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच धौम्यो जापमन्त्रं तं ध्यात्वा हृदि गजाननम् क्रमेण योगभूमिस्तशमदमपरो भवत् तदसमागतम् वीक्ष्य मलमासंविशेषतः अज्ञानमलनाशार्थम् चकार तद्भवं व्रतम् उष विधानेन गाणेशे पञ्चके रतः सदा गणपतिम् सस्मार शुद्धचेतसा आगतं गणराजं तं ततो भक्तो मुनीश्वर अमायां समालोक्य हर्षितो भून्महामुनिः उद्धाय तं प्रणम्यादौ पुपूज भक्तिसंयुगः पुनः प्रणम्य विघ्नेशं तुष्टाव कृतसम्पुडः धौम्य उवाच नमाम्यहं गणेशानां सर्वसिद्धिप्रदायिनं भक्तानां भवयुक्तानामन्येषां विपरीतगं धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननं किं स्तौमि त्वां महाभाग योगेशम् योगरूपिणम् तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् स्तोत्रम् ते प्रीतितम् पूर्णम् शृणु सर्वज्ञसत्तम गणेशायनमस्तुभ्यं योगशान्तिप्रदायिने शान्तिनां शान्तिरूपाय हे रम्बाय नमो नमः अनामयायज्ज्येष्ठायज्ज्येष्ठपदप्रदायिने ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः नाम रूपात्मकेष्वेव शक्तिरूपाय ते नमः आत्मसुरवयेतुभ्यं समेषु विष्णवे नमः अव्यक्रेषु महेशाय संयोगेषु निजात्मने निवृत्तिसुह्ययोगाय कलांशेन नमो नमः योगेषु शान्तिरूपाय ब्रह्मणस्पतये नमः आदिमध्यान्तभेदैस्तु केलकाय नमो नमः नाना मायाप्रचालाय सिद्धिबुद्धिपदे नमः स्वानन्दवासिने तुभ्यं भक्तरक्षणतत्पर किं स्तौमि त्वां गणाधीश वेदा योगिन एव च न समर्था अधो नाथ गजाननं यवमुक्त्वा गणाधीशम् पपातासौ धरातले दण्डवद्गणनाथस्य पादौ गृह्यमहामुनिः तमुद्धाप्यस्वयं प्राह गणेशो ब्रह्मणां पदिः धौम्यत्वं दास्यामि स्तोत्रतोषिदः स्तोत्रं त्वया कृतं मे यत्पठदे शृण्वदे सदा सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकं योगशान्तिप्रदं पूर्णम् मयि भक्तिविवर्धनं यं यमिच्छदितं तं वै स्तोत्रतोषितः सुद उवाच गणेशवचनं श्रुत्वा धौम्यो हर्षसमायुधः जगादगणाधीशं भक्तेश्यं भक्तवत्सलं धौम्य उवाच प्रसन्नोऽसि यदानाध तदाते ते भक्तिमुत्तमां देहि मे योगशान्तिं तु यत्र त्वं मोदसे सदा तथेदिगणनाधस्तमुक्त्वा चान्दर्हितोऽभवद दौम्यखिन्न इवात्यन्तं तत्रैव भवद तत्र संस्थापयामास ब्राह्मणैर्मन्द्रकोविदैः गणेशं तं सदा ध्यात्वा पूज्यभक्तिं चकारः शौनक उवाच अकर्मकारिणः प्रोक्ता सात्विकाशास्त्रसम्मतं कर्मकर्तार एवं तु राजसाः परिकीर्तिताः विकर्मकारिणः सर्वे तामसा सूत्रनिश्चितं त्रिधा भेदयुताः सर्वे भवन्ति भुवि ब्रह्मार्पणतया मुक्तिं गच्छन्ति द्विजसात्विकाः स जन्म मृत्युयुक्ता भ्रमन्ति तामसा नरकेश्वेव शिष्णोदरपरा किल गच्छन्ति त्रिगुणे भावे संस्था जनास्त्रिधा तत्र तामसभावाख्यशङ्करः परिकीर्तितः तम्भजन्ति महाभागाश्चदुर्वर्गफलार्थिनः तामसस्य तु ये भक्ता नारका समदाः पुरा शिवभक्ता कथं सर्वे भवन्ति ब्रह्मभूतकाः सूत उवाच सम्यक् पृष्ठं त्वया विप्र सर्वेषामुपकारकं कथयामि यथा व्यासाच्छ्रुतं सर्वज्ञसत्तमाद तम अज्ञानरूपं यत् सौषुप्तं शास्त्रसम्मतम् अज्ञानाद्विविधं सर्वं समुत्पन्नं विचारय सात्विकमान्दरं स्वाप्नं जाग्रत राजसं जाग्रदभाजूलस्वसक स्मृद तराधि कारकम व्ये त्रिगुण क्षण क्षणेज संस्थावस्था विविधात्मका सात्विकस्तद्वदवस्थापालको मदः तामसस्ताः समाहृत्य लीना करोति सर्वदा अध सर्वमिदं विप्रत्रिभिर्व्याप्तं समन्दधः गर्भाधानादिप्रारभ्य मरणान्तं सुशोभदे कर्माकर्म विकर्माणि त्रिगुणायैः संयुतानि च कर्मयोगस्य विप्रेष्य गुणा इमे प्रकीर्तिताः न तत्र शम्भुमुख्यास्ते सुरा ग्राह्या बुधैः कदा अधः शङ्करभक्ताश्च लभन्ते सर्वमञ्जसा अधुना शृणुमाहात्म्यम् मलमासभवम् परम् वैश्यः कश्चिच्छमो बभूवे मालवे मुने सच्छ्रुत्व मलमासस्य माहात्म्यं मलनाशनं गणेशभक्तिसंयुक्तश्चकारव्रतमुत्तमम् मलमासं समासाद्य स्नात्वा प्रादर्गणाधिपम् सस्मारस्मरणेनैव तधः कार्यपरो भवद एकदा मार्गसंस्थं च वैश्यं निद्रायुधं निशि तत्र तं प्रेदा दशयादा महाबलाः तस्मिन् काले समो महामुने ददर्शतान्महाप्रेतान् सस्मार गणनायकं जगादस्वान्दरे सोऽपि गणेशकरुणानिधे रक्षमाम् मां प्रेदशेभ्यस्त्वं त्वत्पादे भक्तिसंयुधं मलमासस्य देवेश दिवसाशक्त एव च उर्वदिदा व्रतमेऽत्र भग्नं नो चेद्भविष्यदि समाप्ते मलमासे मां मारयस्व गजानन नाधुना व्रतसंस्थं तु रक्षरक्ष दयानिधे मलमासव्रते संस्थं दृष्ट्वा प्रेदाभयातुराः जाति स्मरा बभूवुस्ते रुरुदुष्टं प्रणम्य वै तदसविस्मितो भूत्वा तान् पप्रच्छमहाबलान् किमर्थं दुःखसंयुक्ता भवन्तो मां ब्रुवन्तु च प्रेदाऊचुः पूर्वजन्मनि भो वैश्य वयं ब्राह्मणसम्भवाः अनाचाररदा सर्वे मृदा यमगृहे गदाः तत्र नानाविधां पूर्णां यादनां दुःखदां परां भुक्त्वा प्रेधा कृतास्तेन यमेन साधु सत्तमा अत्रशी अत्र नाना नानाद्वन्द्वेषु सर्वदा पदिदा दुःखसंयुक्ता भ्रमामो यत्र तत्र अधुना दैवयोगेन भक्षितुं त्वां समागदाः त्वद्दर्शनजपुण्येन जातिस्मरा भवामहे मलमासव्रतस्थस्त्वं तारयास्मान् दयानिधे गणेशस्मृतिसंयुक्तस्नानम् करोषि नित्यदा एकस्नानभवम् पुण्यम् देहि वैश्यवयम् तदा अस्मभ्यं तेन निष्पा गमिष्यामो पुनर्भवम् प्रेतानाम् वचनम् श्रुत्वा हर्षयुक्तशमोऽब्रवीद प्रेदान् दुःखयुधान्वीक्ष्य दयायुक्तस्वभावदः शम उवाच किं मया क्रियते प्रेदा मलमासभवं व्रतं स्नानमात्रं कृतं नित्यं गणेशस्मृतिसंयुधं गणेशस्मरणस्यैव महिमाकेन गण्यते पुराणेषु श्रुतं तस्माद् वजशृणुध मेहितम् एक नाम स्मृतेः पुण्यं ददामि स्नानसम्भवं तेन बन्धनहीनाश्च भविष्यधनसंशयः एवमुक्त्वा ददौ तेभ्य एकस्नानभवं फलं मलमास्ये गणेशस्य स्मृतियुक्तं महामुने ततस्तत्र समयाद गानेशा यानसंयुताः प्रेतान् गृह्य ययुः सर्वे स्वानन्दं गणपे रताः तत्र लम्बोदरं दृष्ट्वा ब्रह्मभूता बभूविरे प्रेताः पश्यमहाश्चर्यं शौनकमदमासगम् एवं नानाजना विप्र सिद्धिं प्राप्ता विशेषदः दौण्ढे मास्ये कदि ब्रूयां सङ्ख्यातुं न क्षमोह्यहं सङ्क्षेपेण मया तुभ्यं कथितं चरितं शुभं मलमासभवं चित्रं श्रवणात् सर्वदायकं यः पठेच्छ्रावयेद्वापि शृणुयात्सलभेत् परम् इह भुक्त्वाखिलान् भोगान् स्वजनैः परिवारितः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ओम् um...